अथ सप्तदशः इत्युक्त्वा परुषम् वाक्यम् रावणम् रावणानुजः आजगाममुहूर्तेन यत्र रामः स लक्ष्मणः तम् मेरुशिखराकारम् ह्रदाम् विगनस्थम् महीस्थास्ते स्थास्ते ददृशुर्वानराधिपाः ते, ते चत्वारो भीमविक्रमाः तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः स च मेघाचलप्रख्यो वज्रायुधसमप्रभः वरायुधरो वीरो दिव्याभरणभूषितः तमात्मपञ्चमम् दृष्ट्वा सुग्रीवो वानराधिपः वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् चिन्तयित्वा मुहूर्तम् तु हनुमत्प्रमुखान् सर्वानिदम् वचनमुत्तमम् एष सर्वा युधोपेतश्चतुर्भिः सह निपतन्ते हता यावद्धरण्यामल्पचेतनाः तेषाम् सम्भाषमाणानामन्योन्यम् स विभीषणः उत्तरम् तीरमासाद्य स्वस्थ एव व्यतिष्ठत स उवाच महाप्राद्यस्वरेण महता महान् सुग्रीवम् तांश्च सम्प्रेक्ष्य स्वस्थ विभीषणः रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः तस्याहमनुजो भ्राता विभीषण इति श्रुतः तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् ऋद्धा च विवशादीना राक्षसीभिः सुरक्षिता तमहम् हेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम् साधुनिर्यात् गताम् सीता रामायेति पुनः पुनः स च न प्रतिजग्राह रावणः कालचोदितः उच्यमानम् हितम् वाक्यम् विपरीत इवौषधम् सोऽहम् परुषितस्तेन दासवच्चावमानितः त्यक्त्वा पुत्रांश्च दारांश्च राघवम् शरणम् गतः निवेदयत माम् क्षिप्रम् राघवाय महात्मने सर्वलोकशरण्याय विभीषणमुपस्थितम् एतत्त्ववचनम् श्रुत्वा सुग्रीवो लघु विक्रमः लक्ष्मणस्याग्रतो रामम् संरब्धमिदमब्रवीत् प्रविष्टः शत्रुसैन्यम् हि प्राप्तः शत्रुरतर्कितः निहन्यादन्तरम् लब्ध्वा उलूको पायसानिव मन्त्रे व्यूहेन ये चारे युक्तो भवितुमर्हसि वानराणाम् च भद्रम् ते परेषाम् च परन्तपत् अंतर्धानगताह्येते ह्येते राक्षसाः कामरूपिणः शूराश्च निकृतिज्ञाश्च तेषाम् जातुन विश्वसेत् प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम् अनुप्रविश्यसोऽस्मासु भेदम् कुर्यान्न संशयः अथवा स्वयमेवैषच्छिद्रमासाद्यबुद्धिमान् अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि मेत्राटविबलम् चैव मौलभृत्यबलम् तथा सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् प्रकृत्या राक्षसो ह्येष भ्राता मित्रस्य वै प्रभो आगतश्च रिपुः साक्षात्कथमस्मिंश्च विश्वसेत् रावणस्यानुजो भ्राता विभीषण इति श्रुतः चतुर्भिः सह रक्षोभिर्भवन्तम् गतः रावणेन प्रणीतम् हि तमवेहि विभीषणम् तस्याहम् निग्रहम् मन्ये क्षमं क्षमवतां वरा राक्षसो जिम्मया बुद्ध्या सन्दिष्टोऽयमिहागतः प्रहर्तुम् मायया छन्नो विश्वस्ते त्वयि चानघा बध्यतामेष तीव्रेण दण्डेन सचिवैः सह रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः एवमुक्त्वा तु तम् रामम् संरब्धो वाहिनीपतिः वाक्यज्ञो वाक्यकुशलम् ततो मौनमुपागमत् सुग्रीवस्य तु तद्वाक्यम् श्रुत्वा रामो महाबलः समीपस्थानुवाचेदम् हनुमत्प्रमुखान् कपीन। यदुक्तम् कपिराजेन रावणावरजम् प्रति वाक्यम् हेतुमदत्यर्थम् भवद्भिरपि च श्रुतम् सुहृदामर्थकृच्छ्रेषु युक्तम् बुद्धिमता सदा समर्थेनोपसन्देष्टुम् शाश्वतीम् भूतिमिच्छत इत्येवम् परिपृष्टास्ते स्वं स्वम् मतमतन्द्रिताः स्वोपचारम् तदा राममूचः प्रियचिकीर्षवः अज्ञातम् पूजयन् राम पृच्छस्य त्वम् हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः परीक्ष्यकारी स्मृतिमान्निसृष्टात्मा सुहृत्सु च तस्मादेकैकशस्तावद् ब्रुवन्तु सचिवास्तव हेतुतोमतिसम्पन्नाः समर्थाश्च पुनः पुनः इत्युक्ते राघवायाथमतिमानम् गदोग्रतः विभीषणपरीक्षार्थमुवाचवचनम् हरिः शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि विश्वासनीयः विभीषणः छादयित्वात्मभावम् हि चरन्ति षठबुद्धयः प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् अर्थानर्थौ विनिश्चित्य व्यवसायम् भजेतः गुणतः सङ्ग्रहम् कुर्याद् दोषतस्तु यदि दोषो महांस्तस्मिम् स्त्यज्यतामविशङ्कितम् गुणान्वापि बहून् ज्ञात्वा सङ्ग्रहः क्रियता नृपा शरभस्त्वथ निश्चित्य सार्थम् वचनमब्रवीत् क्षिप्रमस्मिन्नरव्याघ्रचारः प्रतिविधीयता हि चारेण यथावत्सूक्ष्मबुद्धिना परीक्ष्य च ततः कार्य यथा न्यायम् परिग्रहः जाम्बवांस्त्वथसम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः वाक्यम् विज्ञापयामास गुणबद्धोषवर्जितम् बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः अदेशकाले सम्प्राप्तः सर्वथा शङ्क्यतामयम् ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः वाक्यम् वचनसम्पन्नो अजो नाम तस्वणस्त पुछ्यता मधुरेयं शनैरनतीरा भाए तत्वस्त क्युष्टो न दुष्टो वु नरर्षभा अथ संस्कार हनूमा सचिवोत्त उवाच वचनम श्लक्षणमधुर लघु भवन्तम् अतिश्रेष्ठम् समर्थम् वदताम् वरम् अतिशायितुम् शक्तो बृहस्पतिरपि ब्रुवन् न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः वक्ष्यामि वचनम् राजन्यथार्थम् रामगौरवात् अर्थानर्थनिमित्तम् हि यदुक्तम् तत्र दोषम् प्रपश्यामि क्रिया न कृते नियोगात् सामर्थ्यमवबोद्धुम् न शक्यते सहसापि नियोगोऽपि दोषवान् प्रतिभाति मे युक्तं यदुक्तं सचिवैस्तवा सचिवैस्तव अर्थस्यासम्भवात् तत्र कारणम् नोपपद्यते अदेशकाले सम्प्राप्त इत्ययं यद्विभीषणः विवक्ष तत्र मे तान्निबोधयथामति एष देशश्च कालश्च भवतीह यथा तथा पुरुषात्पुरुषम् प्राप्य तथा दोषगुणावपि दौरात्यम् रावणे दृष्ट्वा विक्रमम् च ह्यत्र सदृशम् तस्य बुद्धितः अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति यदुक्तमत्र समीक्षिता पृच्छ्यमाना विशङ्केत सहसा बुद्धिमान्वचः तत्र मित्रम् प्रदुष्येत मिथ्यापुष्टम् सुखागतम् अशक्यम् सहसा राजन् भावो बोद्धुम् परस्य वै अन्तरेण स्वरैर्भिन्नैर्नैपुण्यम् पश्यताम् भृशम् न त्वस्य लक्ष्यते दुष्टभावत प्रसन्नम् वदनम् चापि तस्मान्मे नास्ति संशयः अशङ्कितमति स्वस्थो न परिसर्पति न चास्य दुष्टवागस्ति तस्मान्मेनास्ति संशयः आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितम् बलाद्धिविवृणोत्येव भावमन्तर्गतम् ऋणाम् देशकालोपपन्नम् च कार्यम् कार्यविदाम् वरा सफलम् कुरुते प्रयोगेणाभिसंहितम् उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् बालिनम् च हतम् श्रुत्वा सुग्रीवम् चाभिषेचितम् राज्यम् प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः एतावत्तु पुरस्कृत्य युज्यते तस्य सङ्ग्रहः यथाशक्तिमयोक्तम् तु प्रति प्रमाणम् त्वम् श्रुत्वा बुद्धिमताम् वरा इत्यार्षे श्रीमद् रामायणे वाल्मीकिये आदिकाव्ये युद्धकाण्डे सप्तदशः